अथ द्वितीयकाण्डे चतुर्थप्रश्नः प्रारम्भः दुष्वतमो नाहतिशत्रोन्न यज्ञमपयाहि विद्वान् विश्वाग्नेभिहितो विहत्य शत्रु यता माफरा भोजनानि पत्ने श्रद्धमहते सौभगाय भवत्युमान्यत्तवानि सन्तु त्रो यतामभितिष्ठा महागुंसि भग्नेयो नोजनः मृगोमारोलितांसति साकुस्वमृत्रभञ्जिः वस्वस्मभ्यमाभरा भग्नेयो नोऽभिधासदि समानो यश्च निष्ठायतः माच्छेष्किञ्चनसि देवो विज्ञातवीर्यः अपप्रादेन्द्रविश्वाको अमित्रान् अपापाचोभिबोदे स्वा अपोदीचो अपोराधराज घोरौ यथादवशन् मन्मदेम तमिन्द्रम् वादयामसि हे वृद्धायहम्भवे स्ववृषा वृषभोऽभवद येऽरथम् गवेषु न मोहरिभ्याम् अपब्रह्माणजुरुषाणमस्तः इन्द्रो वृत्राण्यप्रतीति हन्वान् अक्षाहनम् पृतनासु जिष्णुम् ज्योतिष्पन्दीत्यतम् पुरन्ध्यम्पुणाहि विश्वादेव पृतनामृतिशभा ज्योतिष्मध्ये आयुः आमग्ज्ञा हिष्पन्दः देवम् पुण्ये जातवेदसम् विश्वानिना दुःखः जातवेदः श्रीमनारादिपरिषिया त्रिवन्मनसामः क्षद्पर्वतः पूषावाचिनोदः सर्वाः सोऽस्माको नैषत् स्वस्थिताकृणि सर्ववीरः अपरेच्छन्ग्ने सप्रथासिवरेण्यः त्वयाम् वितन्वदे अग्निरक्षागंसे सति शुक्रशोचरमत्यः सुरिपावकैर्यः अग्ने रक्षानुगुम्हसः रीषदः अपिष्ठे रजरोदः अग्नेहकम् आवादवाहिभेषिलम् विवादवाहिद्रपः परमुष्वभेषिलः देवानाम् दोदयीयसे दवाविमोवादो वादः आसन्धोरापरावतः लक्षम् मे अन्य आवादो परान्योवादयद्रपः तदवादेव अमुलस्य निर्तः ीवसे तदानोदेहि भेषवादुभेषणम् शम्भोर्नयोगोर्णाहृते प्रणहायोगो निशतारिषदे हयापि हयासनमनसाहितः अयासन हविनमोहिषे हयानोधे भेषिणम् इष्टोग्निराहृतः स्वाहाविदभ्यवर्तनः स्वगादेवेभ्यैदन्नमः कामो भोगस्य भव्यस्य सम्राडे काविराजिति स इदम् प्रतिपथे ेषुधानाः मन्युरेवास देवः मन्युरोदावृण विश्ववेदाः ुषो हे मनसो हेदे ब्रह्मणो हेदे यायिरविधासदि तमग्ने मेन्यामेणो यो वा चक्षुषा यो मनसा योवाच ब्रह्मणा गायिरविधासदि संविधानः यादृता सत्यम् इन्द्रेषु मादसमर्थे रसौ करोति अपनह्यामि ते बाहु अपनह्याम्यास्यम् अग्ने देवस्य ब्रह्मणा सर्वम् देवदिशम् कृतम् पुरामिश्रात् यत्नम् देवेषु न स्कृति स्मस्माकम् भूयात् नास्मान् पन्नरादयः कन्दिदूरे सतोने राज्रुव्यस्याभिधासदः षट्कारेण वज्रेण कृत्यागमहन्विकृतामहम् यो मानः कन्दिवासायम् राजश्चाह्नो निपीयति अद्यादमिन्द्रवज्रेण राद्रुव्यम् वादयामसि इन्द्रस्य क्रीडे अग्निम् सृष्टीवानन्धितावानम् अग्नेशिमदेवस्य वादिनः अदित्वेषाकंसितरेमावदम्सौ भो वामवदम् जातवेदसौ शिरोपवदमद्यनः श्यमानः आतम् समादम् इन्द्राणि देवी सुभकासुपत्नीः त्रिपुंशदस्यादृश संयोजनानि उपस्थयन् विभत्ति सेनाह नाम पृथ्वी धनन्दया विश्वविः सूर्यत्वक्राणीदेवी प्रातः ददाना स्थानो देवी सुखवाशर्म यच्छतु आत्माहर्षमन्तरभोः धृस्तिष्ठा विजाचलिः धृगस्वाशर्वा वाञ्छन्तु आत्मत्राष्ट्रमधिप्रसद ष्ठा हेराशत्रवः इन्द्रैव अपहक्षेत्रेण हविषाः तस्मै देवाधिक्रवन्न अ इन्द्रब्रह्मणस्पतिः ब्रह्मणावक्म् अक्षमव्येन्द्रिषाधातारवेण इन्द्रे सुमधाराः क्तिः पृथिव्याः अस्यायज्ञसौर्यक्षु विहार्वाञ्रञ्जयित्वाकमस्तु केवलः हर्वाञ्चमिन्द्रममुतो हवामहे यो गोदिश्व तस्य बु हरिवो मेदिनन्द्वा संष्टो जायते मातृपो श्रुतिः मन्द्रः कविरजो विवश्रुतः कृते नग्नः धूपस्य केतरभवत्य श्रुतः प्रथमो देवतानाम् संयातानामुत्तमो विष्णुराधीय देवान् दीक्षयेतगो हविरागच्छदन्नश्च विष्णोथव उत्तमम् मह दीक्षापालेभ्य स्वीयेदेवैर् यज्ञै ये संविधानौ दीक्षामस्मै यजमानाय दत्तम् वीर्यायेषु अधिक्षयन्ति भुवनान् विश्वाः नो मत्तो देदेश निश्शनियः कृष्णोर्गाया एतावन्तर्यमाभिवासात् देव पृथिवीमेषु नाम अवतारम् चित्रर्थमधरस्य यज्ञस्य यज्ञस्य केतुको रिषन्तम् प्रत्यर्थम् देवस्य देवस्य मन्ना स्वीयात्वज्ञमतिजनानाम् ुक्ते नस्तो प्रजापुत्रेतो हरेनास्तु आवान्तोकेतनयेतुरत्नासवीक्षै सुदक्षा विश्ववेदाः हरेश्वरागुसु क्षुगोश्रवधम् येन तन्त्वा हवामित्रा नैव्यो कृतासुधिः विभूदृम्नये सप्रदाः अथा ते विष्णो विदुषा चतुर्थ्यः स्तोमो यज्ञस्य राध्यो हविष्मतः यः पूर्व्यायवेदसेन समज्यानये विष्णवेददासी जातमस्य महतो महि प्रभात् से दुश्रवाभिर्यजभ्यत तमुस्वातारः पूर्व्यथा विदस्य हविषापि वर्तन आक्यजानन्तमहे हिमाधानाकृतस्मा हरी इहोपवक्षतः इन्द्रगो सुखतमे एष प्रदे प्रदेमहे विदथे शकंसि शकुं हरी यः प्रदे वन्वे हम् मतम् इन्द्रो नाम कृतन्नयः हरिभिस्तारसे चे स्तुतो गणहात्वा विशन्दो हरिवर्पसङ्गिरः आचर्षनुप्रापृषभोजनानाम् राजाकृष्टीनाम् पुरुहूत इन्द्रः सुतस्य हस्यमुदृक् विप्रा हरिकृष्णाया ह्यर्वान्दायन् ेषु रास्माकुत्सु इन्द्राय सामा विहायाः प्रतिषु विभाय इन्द्रविभवस्य ूर्मिम् तया बाहिद्रा वर्तदामिन्द्रगव्यो विबोधया अश्विनादेह गच्छदम् अस्य स्वामस्य पीतये प्रथमाय ध्वम् पुराकृषक्तिपाधः रादरिः इत्यमश्विना दधातेः पूर्वभाजः न सायमस्त्येवयादृष्टम् विधायः पूर्वः पूर्वतास्योषधे रामे कृष्णेऽसिक्मिरजनिरजय किलासम् पलितम् चेत् पृषद आनश्वाश्नुताम् वर्णः पराः श्वेतानि पातय असि नन्दे निलयनम् आस्थानमसि तन्तव अधिग्नेयस्योषधेतोनाशयापृषत् अस्थिजस्य गिराजस्य तनोजस्य चेत्पथी निष्णयाकृतस्य ब्रह्मणा लक्ष्मश्ेतमनीनशम् स्वरूपा नाम ते माता स्वरूपो नाम ृथिवीम् मृश्निमातरः युधेदप्राप्षते वनस्पदो दुर्मदा इव देवातः सर्वया विशा भो समत्सुत्वा हवामहे समत्स्वग्निमधे आजयिन्तो हवामहे आजेषु चित्तराधम् सङ्गच्छम् एवाभागी यथासता समानामन्त्रस्यमिति समानी समानम् मनःसह चित्तमेषाम् समानङ्गेतोऽभिजमूलबम् मा नो सगो मनो व काव सुदगासदि सं ज्ञानन्नश्वेह सं ज्ञानवर्णयेह सं ज्ञानवश्नायवं इतिहासमा सनिच्छदं सं ज्ञानम्य बृहष्टेह सं ज्ञानकौ सविता गर्दं सं ज्ञानमश्वनायवं यः यन्यच्छदं वचायामि वर्णनेह सरमशर्मदवयं पद्ने हिरण्यसंदृश अदप्ते विष्टविदपायविष्ट्वं ूथागवादोभायपुरोषदावसु श्रीराय आभर श्रीप्रणवाजानाम् बुदे श्रीवस्तवन्द्रभाजय गोश्वेषु शुभ्रुषु सहस्रेषु तु विमघ देवादेवहेळनम् देवासश्च कृमामयम् आदित्यास्तस्मान्मा यूयम् यतस्य तेन मुञ्जला यतस्य तेनादित्याः मुञ्जलेहमाः यज्ञैर्वो यज्ञवाहदः आशिक्षन्तु अनुषेकिमा नेतस्वदा यजमानाः इदाद्येन जुह्नदः अकामा वो विश्वे देवाः शिक्षन्त्वनोपसेकिमा इति नक्तम् येन स्वकरत् गोदम् मा तस्मादादिवदादिवेन् सस्परी, विष्मान्सोदयश्च स्ते शृङ्गात्कुण्डवायः सर्गाः बुध्नात् यो अक्षेणैव चक्रियाशीभिः पृथिवी मदत्याम् अक्षोदेच्छव साक्षानुबुध्नम् आर्णवादस्तृन्दः दृढान्योनादुषमानभोज्ञेषुकेतनाश्वायुपोषतम् मार्गी जीवते रक्षन्दधासि जीवते रसंकम् सोरानमित्रावृणाविष्णुषो रजागुंसचत्रावतिरञ्जतिः इवस्सम् राजापयतानुक्षदम् वार्णाविरावती पर्जन्यश्चित्राम् अभ्रामसमृतस्वयामरे ताभिर्यादि स्वयुक्तिभिः अहिष्टेभिर्विहरणुयादिन्दम्जे वमस्वः न विद्वतो रश्मेः सूर्यस्य चर्मेवादुस्तमो अप्स्वन्दः पर्जन्यायप्रगायिता दिवस्पुत्रायेषुषे स न यवसमिच्छतु अध्यावदपसङ्गेद्भिराभिः ृषीणाम् तस्मादिस्ये हविः उत्तमम् क्रीडान्नः सञ्जितम् जगत् तिस्रो निदग्ने शरदस्वामिदं कृते न सुजयस्व पर्यन्न नामानचित्तधिरे यज्ञीयानि श्च न सुनासीरौ मम यज्ञम् गर्भम् तत्र विवेश हिरानन्दो निहितो मनश्च वृतभिः संविधानौ इन्द्रवन्दो हविरञ्जुषेधानिमिन्धते शृणन्ति बर्हिरानुषग येषामिन्द्रो युवासिन्द्रश्च मेदिना अथो वृत्तान्यप्रति न्नग्रह यामादस्थतुर्भुवनस्य मध्ये प्रतिर्षणीकृष्णावज्रबाहु अग्नीन्द्रामृत्रहनाहुवेवा प्रिया प्रियासु सप्तस्वसासु जुष्टा सरस्वती सौम्याभूत्मायुष्पानायुष्मदानमोऽभिः प्रति सरस्वतिजुस्वशर्म अवस्थेयामशरणन् वृक्षम् त्रीणि वदा विचक्रमे विष्णुर्गोपादाभ्यर्माणि धारयन् तदस्य प्रियमभिपाधो अस्याम् गुरुक्रमस्य सहैवष्णोः पदे परमे मद्भोक्सः कृत्वादास्त्वश्रेष्ठः अद्यत्वार्तानाशवृत्तिम् मा ब्रह्म ब्रह्मवाः प्रियातः बहिसीद ीशुरपुरोडाशम् शृण्विये स्मृडीकाभवन्तुनः देवसवितः प्रजावत्सावीसौभगम् परा विश्वप्रियुव विश्वानि देवसवितः दुरितानि परा सुभन्धन्महासु वा शुचिवर्के बृहस्पतिम् राम्यो जाचके न्याधारयन्त तस्मा इडापिन्वदे विश्वदानी तस्मै विषस्वयमेवानमन्दी यस्मिन् ब्रह्मराजिनिको रजेतिम् सच्युतिम् जघनच्युतिम् न आभराशन्निव सख्यो विनेन्द्रमृधो जहि अनीखुनदिव सापयन् अभिनः सुष्ठुदिन्नया प्रजापति स्त्रियाञशः पुष्पयोत्सपम् उष्ट्रयोग्निः तस्समः श्रुत्वेभकामस्य द्रुव्याणि दक्षिणानाम् प्रतिग्रहे मनसः सित्तमाकूतिम् वाचः सत्यमशीमहि योनागोरोपमन्नस्य यश श्रीश्रियताम्मयी यथाहमस्यादुर्भग्रियैपमान् यथा स्त्रीप्यरिपुपुंसि प्रिया एवम्भगस्य द्रुप्याणि यज्ञस्य काम्यः प्रियः तथेति वायुराहदत् हञ्जेति सत्यम् चन्द्रमाणाः आदित्यः सत्यमोमिति त्यमाभरन् यशो यज्ञस्य दक्षिणाम् असौ मेघामस्समर्थ्यताम् न हि स्वमिदन्नन्यमस्मात् वैश्वानरापुर एतारमग्नेः अन्तरिक्षमुपभृहे मोदयेदिवम् विश्वं विभर्ति पृथिवी अन्तरिक्ष्युपपृथेहदीपयः नताः नैनामित्रोरादधर्षदि देवाविर्यजिरे जदादि चोवित्ताभिः सजते गोपधिः सह रेणुककाडोऽश्नुते का न समुपयन्तिता अभि मृगायमुपयन्तस्यता अनु ना वोमस्य विचरन्ति यज्वनः यदि पुरुत्रा देव्यक्षभिः कुशवा वदन्ति स्थानो मुन्द्रे शमोर्चन्दुहाना धनुर्वागस्मानुपष्टुतैत यद्वाग्विषेतनानि काश्रीदेवानाथमुद्रा श्रुतस्रमूर्जन्दुदिहेपयागुंसिदस्याः परमञ्जगाम ौरीमिमाय च लिलादक्षति एकपदी द्विपदी सा चतुष्पदी अष्टावी नवपदे बभूषी सहस्रागोरः इन्द्रासूराजनेन विश्वकर्मासुरस्य प्रसिष्टम् मनसा उपाचताम् इन्द्रसूरोतरत्र ्याम्भाय गृह्यते कृषायक्षते दिव्यः कर्मण्याहितो बृहन्नाम वृषभस्य या कगत ज्योमामिष्णो भवतु अयिमामुपृषाः अथो इन्द्रियमदेवेभ्यः इब्रवीदिनेभ्यः आयुष्मन्तम् वर्त्यस्वन्तम् अथो अधिपनिंशाम् अस्याः पृथिव्याध्यक्षम् इममिन्द्रवृषभङ्गृणो यत्सुशृणस्वृषभः कल्याणो द्रोढ आहितः पार्षी बलप्रगानेन यजामहे वृषभेण यजमानाः अक्रूरेणैव सर्पिषाः मदश्च सर्वा इन्द्रेण पृतनाश्च इन्द्राय परिणीयते ययादिशत्रुमायन्तम् प्रसाहन्ति प्रदन् नृणामः प्रणेदसद्रन्दतामसन्द्रुष्मम् तनु वामेरे स्वा नीचा विश्वाभिमाची इषुणेह्या वाधं यो न अस्ति वृण्णो ून् पुरो अस्माकैताञ्जय शत्रूजत्रो नस्वपादक्षम् प्रतित्वन्देवहर्याः सर्वतीरपयेनादे कृतेनाभिमानितः इन्द्रजैत्राय जग्गिषे स नः सङ्कासुपारयनादाख्येषु च इन्द्रोजिगाय पृथिवीम् अन्तरिक्षकोशर्महतेःकाव्येन वायुग्रेगायज्ञप्रीः सान्मनसायज्ञम् शिवो नियुद्ध शिवाभिः वायुशुक्रायामिते मध्व ग्रन्थेष्टिषु ीतये क्षत्रिया अस्माकुसिद्धेहि भवत्यसङ्कुमयशत्रुमस्य इममाभजग्रामे अश्वेषु कोषु निरमम् भजयो अस्मिन् क्षत्रस्य कगुभिश्वयस्व तानुग्रविभजा असूनि अस्मेऽद्या वापृथिरे भूरि वामम् सन्दुहाथार्मधुघेव धेनो अयगोराजा राजयासै सत्त्वाकरेकवृषभक्तिवृषा इन्द्रसखादिगीवान् विश्वासा कृतनात् सन्देन्देन् अविदिष्टचित्रो यतः सहस्व तुभ्यम्भरन्तिक्षदयो येष्टा बलिमदूरात् आवन्दिष्ट भक्ते अग्ने महि शर्मभद्रम् यामयस्यैः यो ऋषदश्चकार स निरुध्यानृषः स्मेभूत क्रीडेन्योपुष्यविभावातिधर्मानुषीनाम् ब्रह्म ज्येष्ठवीर्यासंवृतानि ब्रह्माग्रे ज्येष्ठन्दिवमादताना ऋदस्य ब्रह्म प्रथमोज्ञे तेनार्हति ब्रह्मणास्पर्धितुङ्कः ब्रह्मसृजो यज्ञस्य दन्तवः मृत्युजो विष्कृतः शृङ्गाणीवेच्छृङ्गिणाकुंसन्दश्रीरे नमः महाभुतिम् मामहिष्ठा हत्वा सवत्ना ईशानम् प्राघोनामभिश्रियम् अग्नेतान्धानना स्तोमग्नयेश्लेनाय जीजनम्नः स्वारुहाय स्वश्रियो दृशे प्रयुर्वैरव अग्रे यज्ञस्य चेत ेहदृक्मिः हस्ते भागर्ता वयम् नवस्य सोमते वयम् आसुमति मृणीमहे सनारास्वसहस्रिणः नवगोहविर्दुषस्वनः सोमभूतमम् तदञ्जलप्रतिहर्यणः विः तद्विषयेतागोसचेतसा मन्नवजातमदीविग्रहणाद्विषयेथाहि वागो वाजो हवीमि सद्यवशतेष्ठाः अग्निन्द्रानवसिनः अस्य हव्यस्य दृप्यता यो सहसिनौ आहि गच्छता न्द्रम् तस्य हव्यस्य तर्पितार्पयितायम्भः विश्वे देवा इदमत्यागमिष्ठाः समीचीयास्मै गुरुणीताम्भुवनान् विश्वाः मे धेनो मृतञ्जे दुहाते अयस्वत्युत्तरा मे दुष्टिः किमञ्जुषमाणेन वेन समीचीत्या वा पृथिवीकृताजी यविष्ठाहव्यवाहनः चित्रवानद्भृता सुतिः नवजातो विरोचते पग्ने तत्ते महि त्वनम् त्वमग्ने देवताभ्यः भागे देवनमीयते से, सेना विद्वानीक्षति कृत्वामञ्जुषस्वनः तज्ञः प्रथमः प्राश्नादौ सैवेधा हविः शिवा अस्मभ्यमौषधीः कृणातु विश्वचर्षिणिनैश्च देवाः योगोऽपि तो आविशस्व शम् तोकाय स्योनः एतमुच्चम् अधुना संयुतम् सरस्वत्याहिषु इन्द्रादेश्रदुः कीना द्वितयाष्टे चतु प्रश्न स